अम्बतिनालावद् दशकम् कालियन् वरलार तत्सेवोत्कत्सौ भरिर्नामपूर्वम् कालिन्त्यन्तर्द्वादशाप्तम् तपस्यन् मीनव्रादे स्नेहवान् बोकलोले दाशम् साक्षादैक्षदाक्रे कदाचित् साक्षादैक्षदा क्रेकदाचे, द्रक्षसूनो मीनम् कञ्चित् जक्षतम् लक्षयन् स तप्तचित्ते सप्तवनात्र चेत्त्वम् जन्तून्भोक्ता जीवितम् चापि मोक्ता तस्मिन् काले कालि यक्ष्वेलदर्पात् सर्पाराधे कल्पितम् बागमश्नन् तेन क्रोधात्त्वत्पदाम्बोजबाजा पक्षक्षिप्तस्तद्दुरापम्पयोगाद् घोरे तस्मिन् सुरजानीरवासे तीरे वृक्षा वीक्षताक्ष्वेन वेगात् पक्षिव्रातापे दुरब्रे पतन्त कारुण्याद्रम् त्वन्मनस्ते न जातम् काले तस्मिन् एकदा शीरपाणिम् मुक्त्वा याते या मुनम् काननान्तम् त्वय्युक्तामग्रीष्मभीष्मोष्णतप्ता को गोपालाव्याबिबन्क्षे लतोऽयम् नद्यज्जीवान् विच्युदाङ्क्षमातलेतान् विश्वान् पश्यन् अच्युतत्वम् दयार्द्र प्राप्योपान्तम् जीवयामासिदत्राग् पीयूषाम्बो वर्षि भीक्षीकटाक्षये किम् किम् जातो हर्षवर्षातिरेक सर्वाङ्केष्वित्युत्थिता गोबसङ्गा दृष्ट्वा ग्रेत्वा त्वत्कृतम् प्रभावा गावश्चैवम् जीवाक्षणेन स्वेदानस्तास्त्वाम् च दृष्ट्वा द्रागावव्रो सर्वतोकर्षबाष्पम् व्यामुञ्चन्त्यो मन्दमुद्यन्निनाद रोमाञ्चोऽयम् सर्वतो नः शरीरे भूयस्यन्तः काशिदानन्तमूर्च्छा आश्चर्योऽयम् क्षवे लवेको मुगुन्ते युक्तो गोपैर्नन्दितो भू। एवम् भक्तान्मुक्तजीवानपि त्वम् मुक्ताभाङ्गैरस्तरोगांस्तनोषे धातृग्भूतस्पीतकारुण्यभूमा रोगात्पाया वा युगेकादिनाद कृष्ण जय कृष्ण जय कृष्ण जय कृष्णकृष्ण कृष्ण कृष्ण कृष्ण जय